पठामि खल्वहम् मधुना भोजराजकृतस्य चम्पू रामायणस्यादिमम् बालकाण्डम् लक्ष्मीन्तनोतु नितरामितरानपेक्षम् अङ्घ्रिद्वयम् निगमशाखि शिखाप्रवालम् हैरम्बमम् बुरुहडम्बरचौर्य निघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरन्नः ननु ननुशब्दस्य हेरम्बप्रार्थनात् परम् प्रसिद्धम् श्लोकम् प्रस्तौति पुच्छैर्गतिर्जगति सिद्ध्यति धर्मतश्चेत्तस्य प्रमाटपठनैः कृतकेतरैश्चेत् तेषाम् प्रकाशनदशाचमहि सुरैश्चेत् तानन्तरेण निपते त्वनु मे प्रणामाः एवम् कृतम् ब्राह्मणमन्द्रम् ततश्च स्वप्रतिज्ञाम् प्रकाशयितुम् आरभते गद्यानुबन्धरसमिश्रितपद्यसूक्तिर्हृद्याहि वाद्यकलया कलितेव गीतिः पुनरेव गद्यानुबन्धरसमिश्रितपद्यसूक्तिर्हृद्याहि वाद्यकलया कलितेव गीतिः तस्माद्दधातुकविमार्गरुषाम् सुखाय चम्पू एवं चम्पू काव्यं करोमित्युक्त्वा। किं विषयकं काव्यं करो वाल्मीकि करोती तृप्तिम् करोमि कथमप्यधुना बुधानाम् गङ्गाजलैर्भुवि भगीरथयत्न लब्धैः किम् तर्पणम् न विदध विदधाति नरः पितृणाम् किम् तर्पणम् आरभते वाचम् निशम्य भगवान् स तु निशम्य भगवान् सतु नारदस्य प्राचेतसः प्रवचसाम्नाय नियमाय महर्षिसे पुण्यामवाप तमसाम् तमसाम् निहन्त्री ततः किम् जातमिति चेत् तत्र कञ्चन क्रौञ्च्यमिथुनादेकम् पञ्च्यशरविद्धमपि व्याधेनानुविद्धम् निध्यायतो बद्धानुकम्पस्य भगवतो वाल्मीकेर्वदनारविन्दान्दो मयि काचिदेवम् निःससारसरस्वती मानिषादप्रतिष्ठाम् त्वमगमः शाश्वतिः समाः यत् काममोहितम् तदनु समयोचितकृत्यम् निर्वर्त्य स्वाश्रमम् प्रति गतवती भगवति वाल्मीकौ लासमपरत्र कृतोपलम्भम् अम्भोज भूरसहमान इवाविरासीत् आभाति यत्कृतिरनेकविध प्रपञ्चव्याजेन्द्रजालविधि साधक पिङ्क्षिकेव पुनरेवोऽस्मि वाणी विलासमपरत्र कृतोपलम्भम् अम्भोजभूरसहमान इभाति यत्कृतिरनेकविधेङ्खिक्षिकानाम् महर्षि विधवदभ्यर्चि परी मध्यलोके स्वत्त भारत्या नया भारत रामचरत इति व्याक्रियता अथ सरसिजयो नेराज्ञया राम वृत्तम् करब सम्मान्नम् प्रेक्ष्य दृष्ट्या प्रतीच्या शुभमत्तनुत्काव्यम् स्वादु रामायणाख्यम् मधुमय भणितीनाम् मार्गदर्शी अत्र प्रतीच्या नाम यौगिक्या नाम योगिक्या दृष्ट्या प्रसृत्तम् सर्वं करबदरमिव प्रेक्ष्य रामायणम् चकारेति श्लोकस्य तात्पर्यम् एनम् प्रबन्धम् प्रयोक्तुम् कः समर्थ इति चिन्तामुपगतवती सति भगवति वाल्मीकौ उपागतौ मिलित परस्परोपमौ बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ विचक्षणौ विविध नरेन्द्र लक्षणौ कुशीलवौ कुशलवनामधारिणौ एतौ मुनिः कृतिमपाठयत् तौ पुनरितस्ततो गायमानौ दृष्ट्वा रामः भवनमानीय भ्रातृभिः परिवृतो निज चरितम् गातुमन्वयुङ्क्त ठन्दोमयीनाम् ततश्च ठन्दोमयीनाम् निलयस्य वाचामन्ते वसन्तौ मुनिपुङ्गवस्य एतौ कुमारौ रघुवीरवृत्तम् यथाक्रमम् गातुमपाक्रमेताम् प्रशस्ता कोसलेषु आज्ञा समुत्सारितदानवायोध्येति तद्राजा विषये वदति तामावसद्दशरथ सुरवन्दितेन सङ्क्रन्दनेन विहितासन संविभागः वृन्दारकारिविजये सुरलोकलब्ध्यमधुवासितवासभूमिः अथास्मिन्ननपत्यतया दूयमानमानसे पुत्रार्थम् क्रतुमश्वमेधम् विधातुम् मन्त्रिभिः समम् मन्त्रयमाणे दशरथे सुमन्त्रहृष् टमना महर्षे रङ्गदेशसङ्गतावग्रहनिग्रहशौण्डस्य विभाण्डकसूनोरवश्यम् ऋष्यशृङ्गस्य प्रसादात् प्रभवो भविता कुमाराणाम् इति सनत्कुमारोदीरितम् पुरावृत्तमस्मै दशरथाय कथयामास सोऽपि सुमन्त्रवचनाक्षान्ताधिः शान्ताकुटुम्बिनम् सम्बन्धिनम् मुनिमानीय वसिष्ठादिष्टमश्वमेधाध्वरम् सरयूरोधसि विधाय तत्र पुत्र्यामिष्टिम् विधिवत्कर्तुमारभत आधिनाम व्यथा विराहरणाय धरणौ सत्पी सत्पे गीर्वाणगणा प्रमुखा चतुर्मुखाय दशमुख प्रताप दशमुखप्रतापग्रीष्मोष्मसम्प्रोषणमावेद्य तेन सह शरणमिति शार्ङ्गधन्वानम् मन्वाना नाना विधप्रस्टु तस्टु तयः ख्रीराम बुराशिमा सेदु अत्र संप्लोषणम नाम दाह आसेदु इती शज्र इति धातो हो गत्यर्थक धातो हो लिट्रूपम रूप, लिट तत्र खलु वर्णयति सन्तापघ्नम् सकलजगतां शाङ्गचापाभिरामम् लक्ष्मीविद्युल्लसितमतसीगुठ्यसच्छायकायम्ख्यम् ख्यातकानाम् शरण्यम् कारुण्यापम् त्रिदश परिषत्कालमेघम् ददर्श पुनरेव वच्मि सन्तापघ्नम् सकलजगताम् शार्ङ्घटापाभिरामम् लक्ष्मीविद्युल्लसितमतसीगुठ्यसच्छायकायम् वैकुण्ठाख्यम् मुनिजनमनश्च शरण्यं ततः खलु भगवतो विष्णोः किमप्यद्भुतम् वर्णनं दर्शयति यत्र कुवलय दलद्वैतायते विष्णुः क्षीरसागरे सर्पेशयानः वीक्षध्वम् क्षीराम्भोधेर्जठरमभितो देहभासाम् प्ररोहैः कालोन्मीलत् कुवलयदल द्वैतमापादयन्तम् आतन्वानम् भुजगशयने कामपि क्षौमगौरे निद्रामुद्राम् निखिलजगतीरक्षणे जागरूकम् जागरूकाम् पुनरेव वच्मि क्षीराम्भोधेर्जठरमभितो देहभासाम् देहभासां कालोन्मीलत् कालोन्मीलत् कुवलयदल कालोन द्वैतमापादयन्तम् आतन्वानम् भृगशयने कामपि क्रौम गौरे निद्रामुद्राम् निखिल जगती रक्षणे ततः खलु नृसिंहावतारम् व्रणयति प्रह्लादस्य व्यसनममितम् दैत्यवर्गस्य दम्भम् स्तम्भम् वक्षस्थलमपि विपोद्यौगपद्येन भेत्तुम् बद्धश्रद्धम् पुरुषवपुषामिश्रिते विश्वदृष्टे दंष्ट्रारोचिर्विशदभुवने रम्हसा सिंहवेष्वे ततश्च स्तुतिमनुवर्तयति नारायणाय नलिनायतलोचनाय नामावशेषितमहाबलिवैभवाय नानाचराचरविधायकजन्मदेश नाभीपुटाय पुरुषाय नमः परस्मै पुनरेव वच्मि नारायणाय नलिनायतलोचनाय नामावशेषितमहाबलिवैभवाय नानाचराचरविधायकजन्मदेश नाभीपुटाय पुरुषाय नमः परस्मै इति प्रणम्योत्थितान्नेतान् स्तुतिरवमुखरितहरिन्मुखान् प्रमुखान विलास लोचन मरीचि हरिहयप्रमुखानखिलान्नमरान् अरुणारुणतामरसविलासचोरैर्लोचनमरीचिसन्तानैरानन्दयन् अरविन्दलोचनस्फुटमभावृत भो खल्वत्र उत्तमम् वर्णनम् हरेर्लोचनाम् अरुणारुणशब्दस्य कोऽर्थ इति प्रश्ने जाते अरुणप्रकारः इति अवगन्तव्यम् पुनरेव वच्मि इति प्रणम्योत्थितानेतान् स्तुतिविस्त तुतिरवमुखरिन्मुखान् हरिहर्य प्रमुखान् अखिलान् अमरान् अरुणारुणतामरसविलासचोरैर्लोचनैर्लोचन मरीचि सन्तानैरानन्दयन्नरविन्द लोचनस्फुटम् अभाषत अग्रे ष्णुना किम् नामोदितमिति चेत् शृणुध्वम् अर्थं बृहस्पतिरिति अपि कुशलममर्त्या स्वागतम् साम्प्रतम् वः शमितदनुजदम्भा किन्नुदम् भोलिकेलिः अपिधिषणमनीषा निर्मिता नीतिमार्गास् त्रिदश्च नगरयोग क्षेम कृत्ये क्षमन्ते एवम् भगवतः कुशलानुयोग पुरस्सरीम् अमृता सारसरसाम् संपूर्ण सम्पूर्णमनोरथानाम् सुमनसाम् संसत् पुंसे परस्मै विज्ञापयामास किमितीति पश्यामः देव, देव, देव भगवता भवता कृतावलम्बानामस्माकम् किन्तु अस्ति प्रशस्तविभवैर्विविधैरलङ्घ्या अस्ति प्रशस्तविभवैर्विबुधैरलङ्घ्या लङ्केति नाम रजनीचरराजधानी माणिक्यमन्दिरभुवाम् महसाम् प्ररोहैस्तेजस्त्रयाय दिनदीपदशाम् दिशन्ति पुराण पुराणनगरीम् नगरीति सालाम् सालाभिराम भुजनिर्जितयक्षराजः हेलाभिभूतजगताम् रजनीचराणाम् राजाचिरादवति रावणनामधेयः यद्बाहुराहुरसनायितशस्त्रधारा दिक्पालकीर्तिमयचन्द्रमसङ्ग्रसन्ति यद्वैरिणामरणमुखे शरणप्रदायी नैवास्ति कश्चिदमुमन्तकमन्तरेण अम्भोजसम्भवममुम् बहुभिस्तपोभिर् आराधयन्वरमवापपुरै परैर्दुरापम् तस्मादशेषभुवनम् निजशासनस्य लक्षीकरोति रजनी चरचक्रवर्ती तेन वयम् पराधीना इव भवामः